श्रीमद्भागवत् महापुराणं दसंस्कन्ध अथैको न पञ्चाशत्तमोऽध्यायः अक्रूर्जीका हस्ति नापुरजानां <laughs> शेषोकुवाच स गत्वा हास्ति न पुरं पौर्वं पौरवेन्द्रयशोऽकितं ददर्श तन्तत्राम्बिकेयं विदुरं प्रथां स च बाल्लीकं भारद्वाजं स पर्णं सुयोधनं द्रोणीं पाण्डवान् सुहृदोपरान् यथावधूपसंगम्य बन्धुभिर्गान्दिनीसुतः संस्पृष्टदन्तै सुहृदन्द्वार्ता स्वयं चाप्रीच्छदव्ययम् वासकातिचिन्मासान् राज्ञो वृत्तविविषया दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः तेज ओजो बलं वीर्यम् प्रश्रयादेश सद्गुणान् प्रजानुरागं प्रार्थे सु न सहद्धे चिकीर्षितं कृतं च धातुराश्रयन् गर्दानाद्य पेशलम् आचक्षौ सर्वमेवास्मे पृथा विदुर्येव च पिता तु भ्रातरं प्राप्तम् अक्रूरमुपशिच्यतं उवाच जन्मनिलयं स्मरन्त्यशुक्ं कलेक्षणा अग्निस्मरन्ति न सौम्य पितरो भ्रातृरष्टमे भगिन्यो भ्रातृपुत्रामय सख्य एव च धातृयो भगवान् कृष्णशरण्यो भक्तमत्सल पितृस्वसेयां स्मरति रामश्चाम्बुरुहे क्षणः का पत्नमध्ये शोचन्तीम् नृकाणाम् भरिणीमिव तान् प्रेष्यति मां वाक्यै महायोगिन कृष्णकृष्णमहायोगिन् विश्वात्मन् त्रपन्नां पाहि गोविन्दशिशुभिश्चावसीदतीं नान्यत्वपदाम्भोजत् पश्यामि शरणं नृणां बिभ्यतां मृत्यसंसारादीश्वरस्यापवर्गिकान् नमः कृष्णाय श्रद्धाय ब्रह्मणे परमात्मने योगेश्वराय योगाय त्वामहं शरणं गताम् शेषोकुवाच इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरं प्रारुदद्दुःखिता राजन् भवतां प्रपितामहे समदुःखसुखो क्रूरो विदुरस्य महायशाः सान्त्वयामासन्तोकुन्ते तत्पुत्रोत्पत्तिहेतुभि यास्यन् राजानमभ्येम्भेत्य विषमं पुत्रलालसम् अवधस्रुहृदां मध्ये बन्धुवे श्रोदोदितम् अक्रूरुवाच भो भो वैचित्रवीर्यन्तं कुरुणां कीर्तिवर्धन भ्रातुर्योपरते पाण्डवं अधुना सन्तनमाश्रितः धर्मेण पालयन्नुर्वीप्रजाशीलेन रञ्जयन् वर्तमानसमस्वेषु श्रेयकीर्तिमुवाप्स्यसे अन्यथा त्वां चरं लोके गर्हितो याशे तमः तस्मात् समत्वे वर्तस्व पाण्डवे स्वात्मजेषु च मेहचात्यन्तसंवास कर्हि चिन्केनचित् सह राजन्स्वेनापि देहेन किं जायात्मजादिभिः एकप्रसूयते जन्तुरेक एव प्रलीयते एको न भुङ्क्ते सुकृतम् एक एव च दुष्कृतम् अधर्मोपचितं व्यत्तं भरन्त्यन्येऽल्पमेधस सम्भोजनीयापदसेन्दसे जलानीव जलौकष पुष्णातीयान् धर्मेण स्वबध्यातमुपन्पण्डितं ते कृतार्थं प्रहिण्वन्ते प्राणाराय स्वयं कल्वसमादाय ते त्यक्तो नार्थकोविदः असिद्धार्थोऽपि सत्यन्धं स्वधर्मविमुखस्तमः तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथं वीक्षायम्यात्मनात्मानं समशान्तो भव प्रभो द्वित्राष्टुवाच यथा वदति कल्याणीं वाचं दानपते भवान् तथा नयानतिव्यापि प्राप्य यथामृतम् तथापि शोणिता सौम्याशिधि न सीयते चले पुत्रानुरागविषमे विद्युतसौदामिने यथा ईश्वरस्याविधिको नो विदिनोत्यन्यथा पुमान् भूमिर्भारावताराय यौवतिर्णो यदोकुले यों दुर्विसमर्षपथया निजमायेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्ट तस्मै नमो दुर्वधू तस्मै नमो दुर्बधूं दुरवबोधविहारत्र संसारचक्रगतिरे परमेश्वराय शेषुकुवाच यद्यप्रेत्य निबतेरभिप्रायं स यादवः त्रिहृद्भ्ये समनुज्ञात पुनर्यदुपुरीमुगात् ससंसरामकृष्णाभ्यां धृतराष्ट विवेशि विचेष्टितं पाण्डवान् प्रतिकौरभ्य यदर्थं प्रेषित स्वयम् ते श्रीमद्भागवते महापुराणे व्ययाशिज्ञामष्टादशसहस्रायां पारमहंसां सहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशत्तमोऽध्यायः समाप्तमिदं दशमस्कन्धस्य पूर्वार्थं श्रीकृष्णार्पणमस्तु